श्रीमद्भागवत् महापुराणं सप्तम्यस्कन्धम् असद्वितीयोऽध्यायः हिरण्याक्ष का वध होने पर हिरण्यकश्यपु का अपनी माता और कुटुम्बियो को सम् नारदुवाच भ्रातर्येवं विनिहते हरिणाक्रोडमूर्तिनां हिरण्यकश्यपु राजन् पर्यतप्यदृशासुषाम् आह चेदमृषाघुर्णसन्ददशनच्छदः कोपोज्ज्वलद्भ्यां चाक्षुर्भ्यां निरीक्षन् धुम्रमम्बरम् कलालद्रष्टोग्रदृष्ट्या दुष्प्रेक्ष्य भृकुटिमुख सूलमुद्यम्य सदसि दानवानीदमब्रवीर् भो भो दानवोदयते याद्विर्मूर्धस्रक्षसंबरम् सत् बाहूहयग्रीव नमुचे पाक इल्वल विव्रचित्रेमं वच पुलोमन् शकुनादयः श्रुतानन्तरं सर्वे क्रियतामासुमाचिरम् सपत्निर्घातितच्छिद्रैर्भाता मे दयितसृहे पाष्णीग्राहेण हरिणा समेनाप्योपधावनैः तस्य तत्त स्वभावस्य क्ष्णीर्मायावनौकश भजन्तं भजमानस्य बालस्येवासिरात्मनः मच्छूलभिन्नग्रीवस्य भ्रूरिणा रुधिरप्रियं तर्पयिष्ये भ्रातरं मे तस्मिन् कूटे हि ते नष्टे कृत्तमूले वनस्पतौ विटपायुषुष्यन्ते विष्णुप्राणादिवौकष तावद्यात भुवं यूयं विप्रच्छत्र समेधितां सूदयध्वं तपो यज्ञ स्वाध्याय व्रतदानिनः मूलो यज्ञो धर्ममय पुमान। देवर्षि पितृभूतानां धर्मस्य च परायणं यत्र यत्र द्विजागावो वेदावर्णाश्रमाक्रियाः तं तं जनपदं जात सन्दीपयदृश्च ते भरतिनिर्देशम् आदाय श्रीर्सादिताः तथा प्रजानां क्रन्दनं विदधोकजनप्रियाः परग्रामव्रजोद्यान् क्षेत्रा रामाश्रमाकरान् खेटखरवटघोषांश्च तदं ददधूं पत्तनां पत्तनानि च केचित्खनित्रैर्विभदू सेतुप्राकारगोपुरान् आजिव्यां सेत्सृन्दुर्मृक्षान् केचिन् परशुमं पाळयः प्रादहन् शरणान्ये प्रजानां ज्वलितोल्मुखैः एवं विप्रकृते लोके दैतेन्द्रानुचरेर्मुहुर् दिवं देवा परित्यज्य भुवि चेरुलक्षिता हिरण्यकसिपुर्भ्रातुशं परि तस्य दुःखितः कृत्वा कटोदकादीनि भ्रातृपुत्रान् सान्त्वयत् शकुनिं शाम्बरं धृष्टं भूतसन्तापनमृकं कालनाभं महानाभं हरिशं स्मश्रोमथोत्कचं तन्मातरं वृषाभानुं दितिं च गिराम् लक्ष्मणयादेशकालज्ञ इदमाहाजनेश्वर हिरण्यकसिपुरुवाच अम्बाम्बहे वधूपुत्रा वीरं मार्हत शोचितुं रिपोरभिमुखे श्लाघ्यशूराणाम्बदीप्सितः भूतानां संवासः कृपायामि सुव्रते दैवेनैकत्र नीतानाम् उन्नीतानां स्वकर्मभिः नित्य आत्माभिः शुद्ध सर्वग सर्ववित्परः धत्ते सा वात्मनो लिङ्गं मायया विसृजन् गुणान् यथाम्भसा प्रचलता सर्वोऽपि चला इव चक्षुषा भ्राम्यमालेन दृश्यते चलति बभू एवं गुणै भ्राम्यमाणे मनस्य विकलपुमान् जाति तत्साम्यतां भद्रे शलिङ्गो लिङ्गवानिवा एष आत्मा विपर्यासो शिलिङ्गे लिङ्गभावना एष प्रियाप्रियै योगो वियोग कर्म संस्कृतिः तम्भवच्च विनाशश्च शोकश्च विविध कृष्णतः अविवेकस्य चिन्ता च विवेका स्मृतिरेव च अद्राप्युदाहरन्तीममितिहासं पुरातनं यमस्याप्रेतबन्धूनां संवादं तं निबोधत उशीनरे स्वभद्राजा इति विश्रुतः सपत्ने निहतो युद्धे ज्ञाति यस्नमुपासत